चाणक्यनीति अध्यायम् त्रि कस्य दोषकुलेनास्ति व्याधिना को न पीडितः व्यसनम् केन न प्राप्तम् कस्य सौख्यम् निरन्तरम् आचारकुलमाख्यादिदेशमाख्यादिभाषणम् सम्भ्रमस्नेहमाख्यादि पुराख्यादिभोजनम् सुकुले योजयेत् कन्यां पुत्रं विद्यासु योजयेत व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् दुर्जनस्य च सर्पस्य वरं सर्पो दुर्जनः सर्पो दंश्यधिकाले तु दुर्जनस्तु पदे पदे यदर्थे कुलीनानां नृपाकुर्वन्ति सङ्ग्रहम् आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् प्रलये भिन्नमर्याद भवन्ति किल सागराः सागरा भेदमिच्छन्ति प्रलये पिनसाधवः मूर्खस्तु परिहर्तव्यः प्रत्यक्षोद्विपदः पशुः भिनति वाक्शल्येन अदृष्टखण्डको यथा जूपयौवनसम्पन्नाः विशालकुलसम्भवाः विद्याखीना न शोभन्ते निर्गन्धा इव किं शुकाः कोकिलानाम् स्वरोरूपं स्त्रीणां रूपं, रूपं पदिव्रतं विद्यारूपं कुरूपाणां क्षमारूपम् तपस्विनाम् त्यजेदेकम् कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेद ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेद उद्योगे नास्ति दारिद्र्यं जपदो नास्ति पातकम् मौनेन कलहो नास्ति नास्ति जागरिते भयम् अधिरूपेण वासीदा अधिगर्वेण रावणः दानात् बलिबद्धो ह्यदि सर्वत्र वर्जयेत् को हि भारसमर्थानाम् किम् दूरम् व्यवसायिनाम् को विदेश सुविद्यानाम् कः परः प्रियवादिनाम् एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा एकेन शुष्कवृक्षेण दह्यमानेन वह्निना दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना आह्लादितं कुलं सर्वं यथा चन्द्रेण सर्वरी किं जातैर्बहुभिः पुत्रैः वरमेक, वरमेककुलालम्बी यत्र विश्राम्यदे कुलम् लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत् प्राप्येतु षोडशे वर्षे पुत्रे मित्रवदाचरेत् उपसर्गण्यचक्रे च दुर्भिक्षे च भयावहे असाधु जनसम्पर्के यः पलायेत्स जीवति धर्मार्थकाममोक्षाणाम् यस्यैकोऽपि न विद्यते अजागलस्तनस्येव तस्य जन्मनिरर्थकम् मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितं दाम्पत्ये कलहो नास्ति तत्र श्रीस्वयमागता अयममृतनिधानं नायकोऽप्यौषधीनाम् युक्दोपि चन्द्रः भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टकोलकत्वं न याति को